हरि ओम् श्री सीतारामचन्द्राभ्याम् नमः अथ श्रीमद् वाल्मीकिये रामायणे युद्धकाण्डे एकोनचत्वारिन्श सर्ग वानरी सः श्रीरामेण सुवेल शिखरात् लङ्काया निरीक्षणम् तां रात्रिम् उषिता तत्र सुवेले हरियुतपः लङ्कायां ददृशुर्वीरः वनानि उपवनानि च समसौम्यानि रम्याणि विशालायतानि च दृष्टिरम्याणि ते दृष्ट्वा बभूवोर्जात विस्मयः चम्प्रकाशोकबकुल शालताल समाकुल समालेव न नागमाला समावृता हिंसालैः अर्जुनै नीपै सप्त पर्णे तिलकैकर्णिकारैश्च पाटलैश्च समन्ततह शुशुभे पुष्पिताग्रैश्च लतापरिगत द्रुमै लङ्का बहुविधै दिव्यै मरावती विचित्र कुसुमोपेतै रक्तकोमलपल्लभै शाद्वलैश्च तथा नीलै चित्राभिव नराजिभिः गन्धाढ्यान्या तिरम्याणि पुष्पाणि च फलानि च धारयन्त्यगमा तत्र भूषणान्निव मानवः तच्चैत्र रथसङ्काशम् मनोज्ञम् दन्दनोपमम् वनम् सर्वर्तुकम् रम्यम् शुशुभेषयुतम् दात्यूह को यष्टिबकै नृत्यमाने च बर्हिणे ऋतम्पराभृतानां च शुश्रुवेर्धरे नित्यमत्तव्यङ्गानि भ्रमरचरितानि च कोकिला कुलखण्डारी व्यङ्गभीरुतानि च भृङ्गराजाधिगीतानि पुरुरस्वनितानि च कोणालकविघुष्टानि स्वारसाभिरुतानि च विविशुस्ते तदर्तानि वनानि उपवनानि च वृष्टा प्रमोदिता वीरा हरयः कामरूपिणः तेषां प्रविशताम् तत्र वानराणाम् महोजसाम् पुष्पसंसर्ग सुरभिः भवन सुखो निलय अन्ये तु यूथान् निष्क्रम्य यूथपः सुग्रीवेणाभ्यनुज्ञातः लङ्काम् जग्मो पताकिनीम् वित्रासयन्तो विहगान् ग्लापयन्तो मृगद्दीपान् कम्पयन्तश्च ताम् लङ्काम् नादेश नृताम्बरः कुर्वन्तस्ते महावेग महिम् चरणपीडिताम् रजश्च सहसेवोर्ध्वम् जगाम चरणोत्थितम् वृक्षा सिंहाश्च महिषाश्च वाराणाश्च मृग खग तेन शब्देन वित्रता जगमुर्भीतादिषोदश शिखरम् तु त्रिकूटस्य सांशु चैकं दिवि स्पृशम् समन्तात् पुष्प विमलम् चारुदर्शनम् श्लक्ष्णम् श्रीमन्धश्चैव दुष्प्रापम् शकुनैरपि मनसापि दुरारोहं किं पुनः कर्मणा जनै निविष्टा तस्य शिखरे लङ्कारावणपालिता दशयोजनविश्रेणा विंशद्योजनमायत सा पुरी गोपुरैरुचै पाण्डूरम्बुधसन्निभै काञ्चनेन च शालेन राजतेन च शोभते प्रासादैश्च विमानैश्च लङ्का परमभूषितः घनैव पापाये मध्यमम् वैष्णवम् पदम् यस्याम् स्तम्भसहस्रेण प्रासादस्तमलङ्कृत कैलास शिखराकारो दृश्यते खम् इवोल्लिखन् चेच्छ स राक्षसेन्द्रस्य बभूव पुरभूषणम् शेन रक्षसाम् नित्यम् यः समग्रेण रक्ष्यते मनोद्याम् काञ्चनवतीम् पर्वतैरुपशोभिताम् नानाधातु विचित्रे च उद्यानैरुपशोभिताम् नानगसङ्घुष्टाम् नानामृगनिषेविताम् नानाकुसुमसम्पन्नाम् नानाराक्षसेविताम् ताम् समृद्धाम् समुद्धार्थाम् लक्ष्मीवान् लक्ष्मणान् ग्रजः रावणस्य परीम् रामो ददर्श सः वानरैः ताम्बरा गृहसंवाधाम् वृक्षालक्ष्मण पूर्वजः नगरीम् त्रिदिवप्रख्याम् विद्मयम् प्राप वीर्यवान् ताम्रत्न पूर्णाम् बहु सन्विधानाम् प्रासाद मालभिरलङ्कृताञ्च पुरीम् महायन्त्रक वाच मुख्याम् ददर्श रामो महता बलेन इत्याशी श्रीमद् श्रीसीतारामचन्द्रमस्तु